हरिओं श्री सीताचंद्रभ्या नम अथ श्रीमदवायण अयोध्या तमस्वर्ग भरत वनयात्रा श्रृंगरपुर रात्रिवास तत समुस्थित कल्याण आसा संजनोत्तम प्रयोग भरत शीघ्रामम दर्शन काम्य प्रयुस्य सर्वे मंत्री पुरोता अएरुक्ता रथन सूर्य रथोपम नव नाग सहस्राणी कल्पताधि अन्वयुर्भरतम यांत्र ईक्कुकूल नंदन षी रहस्राणी धनिवयु अन्वयुर्भरतम यांत्र राजपुत्रम् यशस्विनम् शतं सहस्राण्यश्वानाम् समारूढा निराघवम् अन्वयुर्भरतं यान्तम् राजपुत्रम् यशस्विनम् कैकेयी कै च सुमित्रा च कौसल्या च यशस्विनी रामानयन सन्तुष्टा ययुर्यानेन भास्वता प्रयाताचार्यसंघाता रामम् द्रष्टुम् स लक्ष्मणम् तस्यैव च कथश्चित्रा कुर्वाणारुष्टमानसः मेघ्यामम् बाहुम् स्थिरदत्तम् दृढव्रतम् कदा द्रक्ष्यामहे रामम् जगतः शोकनाशनम् दृष्टैव हीनशोकम् अपनेष्यति राघवे तमः लोकस्य समुद्यन्निव भास्करः इत्येवं कथयन्तस्ते सम्पृष्ट कथा शुभः परिष्वजानाश्चान्योन्यम् ययुर्नागरिकातरः ये च तत्र परि सर्वे सम्मता ये च नै गमः रामम् प्रति ययुर्वृष्टा सर्वप्रकृतय शुभ मणिकारा केचित् कुम्भकारा च कर्म विशेषन्या ये च शस्त्रोपजीविनः मायूरकः क्राकचक वेदकारोचक तथा दन्तकार सुधाकार ये च गन्धोपजीविनः सुवर्णकार प्रख्याता तथा कम्बलकारकः स्नापकोष्णोदका वैद्या धूपकः शौण्डिका तथा रजका सुन्नवाया ग्राम घोष महत्तर शैलूषाश्च सीभिः यान्त्रिक वर्तका तथा समाहितः वेदवेदो ब्राह्मणा वृत्तसम्मतः घोरर्थे भरतं ज्ञान्तम् अनुजग्मु सहस्रज सुवेशा शुद्धवसना ताम्रमृष्टानुलेपिनः सर्वे ते विविधे यानैः शनैः भरतमन्वयुः प्रवृच्य मुदिता सेना सान्त्वयात् कैकै सुतम् भ्रातु आनयनेयान्तम् समासे दुस्ततो यत्र रामसख वीरो गोज्ञासे गणैरु निवसत्य प्रमादेन देशम् तम् परिपालयन् उपेत्य तीरम् गङ्गाय चक्रवाकै अलङ्कृतम् व्यपतिश्चतसेन भरतस्य अनुयायिनी निरीक्षानुत्थिताम् सेनाम् ताम् च गङ्गाम् शिवोदकान् भरते सचिवान् सर्वान् अब्रवीद् वाक्यगोविदः निवेशय त मयि सैन्यम् अभिप्रायेण सर्वतः विश्रान्ता प्रचलिष्याम श्वयि माम् च तावदिच्छामि स्वर्गतस्य महीपते और्ध्वदेहनिमित्तार्थम् अवतीर्योदकम् नदीम् तस्यैवम् ब्रोतो मात्या निवेशन् तान् छन्देन स्वेन स्वेन पृथक् पृथक् निवेश्य गङ्गा मनतां महानदीं चम विरा ने परिबर शोभिम् उसरामस्य तदा महात्मनो विचिन्त्यमानो भर्तो निवर्तनम् इत्याश्ये श्रीमद् रामायणे वाल्मीकि अधिकारे अयोध्याकाण्डे त्रियाशीति तमः श्रीसीता रामचन्द्रर्वणमस्तु